मुद्गलपुराणं कण्डं फैव् लम्बोदरचरितम् अध्यायम् ट्वेण्टि मूषकगमायाकरासुरसमागमम् श्रीगणेशाय नमः मुद्गल उवाच मूषकगवच श्रुत्वा देवेन्द्राकर्षिदा बभुः ऊचुः प्राञ्चलयस्तं ते विघ्नेशं विघ्नवारणं देवर्षय ऊचुः चतुर्ब्रह्ममयं देववाहनं ते प्रवर्तते स्वानन्दे मूषकाख्यं च सर्वभोगकरं परम् अधुना भोगकारं तु चतुर्भिशिवमुख्यकैः कृतं स्वस्वकलांशेन वाहनं ते गजानना। जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः तदेव वाहनं ते भूद्गृहाणस्तेयरूपिणम् एवमुक्त्वा गणेशानम् देवा, देवा मुनिसमन्विताः तुस्तुवुस्तम् महावीर्यम् मूषकम् मूषकाकृतिम् देवर्षय ऊचुः नमस्ते स्तेयरूपाय धीमदे धीमते अन्तर्भोगकरायैव मोषकाय नमो नमः माययास्तेयरूपिण्या मोहयित्वा चराचरं चौरवद्भोगकर्तात्वं चौररूपाय ते नमः चराचरमयायैव चराचरधराय ते सर्वाधीशाय लोकाय कालकालाय ते नमः अनादये महेशाय चतुर्वर्गप्रदायिने गणेशवाहनायैव गणेशध्वजसंस्थिता सर्वत्र गणाधीशस्त्वया कृत्स्थ न संशयः चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे mm. नमो नमः परेशाय चतुर्मयस्वरूपिणे चतुर्नां गणपः तद्रूपधारिणा भव वाहनमुख्यं वै गणेशस्याधुना प्रभो यदि स्तुतः प्रसन्नात्मा मूषकस्तानुवाचः भविष्यामि वाहनं गणपस्य च एवमुक्त्वा गणेशानां प्रभुं तुष्टावलब्धीः मूषको दर्शनेनैव हर्षयुक्तो महाद्युदिः मूषक उवाच देवाय योगरूपाय नमो मूषक गायते गणेशाय परेशाय परात्परतरायते अनन्ताय महेशाय महेशै संस्तुताय च विघ्नेशाय महाविघ्नधारिणे ते नमो नमः अनन्तसूनवेतुभ्यं दैत्यदानवमर्दिने देवानां पालकायैव हैरम्बाय नमो नमः स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने ब्रह्मणे ब्रह्मणां चैव पदयेते नमो नमः चतुर्नां चालकायैव चतुस्संयोगमूर्तये चतुर्नां पददात्रेते तैर्हीनाय नमो नमः योगेशयोगरूपाय योगिभ्यो योगदायिने शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः मूषकवाहनायैव मूषकध्वजिने नमः सिद्धिबुद्धिपदेनाथ भक्तेशाय नमो नमः वेदवाक्यप्रमाणेन मां कुरुष्व गजानन वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः इदं मूषकगो नाम मदीयं तु त्वया धृतम् अधो देहि नाथ नमो नमः मदीयनाथरूपेण ना नामदेच्चाभवत्प्रभो तदो मूषकगोभक्तं मां कुरुष्व महाद्भुतं एवं स्तुत्वा गणाधीशं प्रणनामसदण्डवद भक्ति संयुदमुत्थाप्य गणाधीशो जगादतम् मोषकग उवाच वाहनं मे सदा साधो भविष्यसि महामदे मदीया भक्तिरत्यन्तं सुदृढा भविष्यति त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् पठदे शृण्व चैदत्पुत्रपौत्राधिकप्रदं यद्यदिच्छति तत्तद्वैः सफलं प्रभविष्यति अन्यत्त्वं शृणु मे वाक्यं देवैर्विप्रायकृतं महद स्तवनं सर्वमान्यं ते भविष्यदि यस्त्वां स्तोष्यति चौर्य स्तोत्रेणनेन मानवः स सर्वं लभदे नित्यमीप्सितं नात्र संशयः अन्ते स्वानन्दको भूत्वा ब्रह्मभूदो भविष्यति मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेद् ते देवराजास्तमनुदेवाश्च मुनयः प्रभो नागाः शेषमुखा सर्वे ययुर्ब्रह्मसमन्विताः प्रेशयामास प्रेषयामास मूषकगः प्रतापवान् दोधमायाकरस्याग्रे बोधार्थं नीतिपालकः गत्वा तमसुरं ब्रह्मा जगादवचनं हिदम् आखुवाहं च शरणं याहिनो चेन्मरिष्यसि चतुर्णां ब्रह्मणाम् मूषकगोयोगे प्रकीर्तितः स्वानन्द स गणेशोऽयं विचारय सुरासुरमयश्चायं गच्छदं भक्तिसंयुधः मम पुत्रत्वमापन्नो हिदं ते प्रवदाम्यहम् ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीद मायाकरासुरः पापी पापयुक्ते न चेतसा मायाकरासुर उवाच त्वं देवपक्षको भूत्वा मोहनार्थं समागतः पंचमं ब्रह्म योगरूपं प्रतिष्ठति तदेव न कुत्र न गतं च प्रजापदे समागतं गणेशानं तं हनिष्यामि सामरं। त्वं गच्छ दूतरूपेणागतस्तस्मान्महामदे सहामिते पराधं वै नो चेद्धन्मि सुरप्रियं ततो ब्रह्मा गणेशानमाययौ प्रणिपत्यतं वृत्तान्तं कथयामास तच्छ्रुत्वा क्रोधमादधे देवानाज्ञापयामास जेदुमूषकगोपितं तदस्ते शस्त्रसङ्घादैर्जघ्नुर्दैत्यगणान्मृधे असुराच्छिन्नभिन्नास्ते पपलुर्गुल्मसंस्थिताः सप्तासीनं समाचख्युर्वचो मायाकरासुरम् दैत्या किम्स्ति महावीर देवा क्रोध महावीरदेवाक्रोधसमन्विताः आगदा नगरं सर्वं तेषामस्त्रायः सुपीडितं तेषां तद्वचनं श्रुत्वा क्रोधयुक्तसमाययौ प्रधानैरसुरैः सर्वैः समृधो मण्डलम् मायाकरं समालोक्य पपलुर्देवसप्तमाः आगम्य तम्मूषकगं शशंसुश्चेष्टितं महद ओं तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकगमाया करासुरसमागमो नाम विंशोऽध्यायः ओम्